गणेशपुराणं क्रीडाखण्डम् अध्यायं नैन्टि एय्ट् क उवाच एवं गतं सप्तमे द्वे त्वष्टमे स गुणेश्वरः उष स्नात्वा स्थितो ब्रह्म जपन्वेदचतुष्टयं कस्तूरीतिलको दिव्याम्बरतरो दिव्यगन्धमाला विभूषितः तदस्ते तापससुता आगतास्तं गुणेश्वरं तद्दीप्त्या भासिता सर्वे ऋणदीप्त्या यथा खनाः तान् दृष्ट्वाध्ययने बुद्धिर्जादा तस्यार्भकैः सर्वेषां मस्तके हस्तं न्यधात् तत्समये विभुः त्रिचतुःपञ्चवर्षाणां वेदस्फूर्तिस्तदोभवन् विनादुचेतनां शब्दो नभो वाण्या हि चदुर्नामपि चतुर्नामपि वेदानां सर्वे पारायणं व्यधुः नाभक्षयन् पशुगणाग्रासं मुखगदं तदा श्रवणे तत्परा जाता शब्दानां वेदचारिणां समाप्ते वेदद्विधये सामगानमधारभन् हरिणा सिंहशार्दूला भुजगाः पक्षिजादयः गानस्य श्रवणे सक्दा अश्रुपादान् प्रसुश्रुवः अष्टाशीतिसहस्राणि मुनय्यश्रवणे रथाः आनन्दह्रद सम्मग्ना शरदे स्म यथा निशि प्रमदागणाः सर्वे शिवायाकर्षनिर्भराः अस्रवचामृतं चन्द्रशिवभालस्थितस्तदा तत्संसर्गाद्रुण्डमाला रुण्डानि पुरुषा बभुः लज्जिदा किन्नरा सर्वे गन्धर्वाश्चास्य गानदः स्मरतप्ता स्त्रियशान्ता आराधिक्यं व्यधुस्तदा तत्रा जगामसहसा दैत्यश्चाभिनवा यस्य शब्देन दीर्णास्ता मन्दराद्रिगुहास्तदा हलदन्दो वापिनाशस्तडागनयनोरिह स दुःश्वापदरूपेण बभ्राम तत्र तत्र पञ्चनेत्रश्चतुश्रृङ्गो वसुपादश्चतुश्रुधिः त्रिमुखश्च द्विपुश्च जहासोच्चैर्निरीक्ष्यतं पश्यन्तु कौतुकं बालाः प्रोवाचेति शिष्यून्विभुः अत्यद्भुतं दृष्टमिदमि स्यूचुस्ते mm -hmm. गुणेश्वरं तदो दैत्यो ननर्तोच्चैरुडीयन्यपदद्भुवि क्षणं लीनः क्षणं तिष्टन् दृश्यादृश्यस्वरूपधृक ध्रियतां ध्रियतामेष इत्युवाच शिष्योन्विभुः इत्युक्त्वा दैत्यमगमद्वेगेन च गुणेश्वरः फला महादैत्यो यादि पृष्ठे स बालकैः महारण्यं गदा यत्र वायुर्न सर्पदि गर्जन्ति सिंहशार्दूला गजसूकरवानराः वानराः धर्तुं तत्र यादो सा उड्डीय दैत्यपुङ्गवः क्वापि यादो दूरदेशं तदखिन्नो गजाननः क्रोधसंरक्तनयनो मुमोज पाशमुल्बणं चकम्बे धरणि व्योमभ्रमन्मेघमभूत्तदा न्यपतन्भानिखात्पृथ्वीं कगुभो व्यनदन्स्वनाद सपाशो दैत्यमाक्रम्य क्षणेनायाद् गुणेश्वरम् श्वासरोधात्पपातोर्व्यालुण्ठन्पादौ भुजौ मुखं नेत्रद्वारा गदाः प्राणा पश्यत्सु बालकेष्वपि पदितो रूपमास्थाय चतुर्विंशतियोजनं सपाशकण्ठं तं के जिद्विचकर्षुरितस्तदः बुदे काष्ठं मुखे धूलिं प्राक्षिपन्नपरेऽर्भकाः केचिन्मूत्रं पुरीशं च चक्रुस्तन्मस्तकेऽर्भकाः गुणशनिकटे यादा सर्वे बालाः क्षुधातुराः रसालानि बभक्षुस्ते केचित्तन्मस्तके गदाः अजघ्नुफलखादेन भूमिस्था उपरि स्थितान् पदितान्यपरे खादन् ददृशुर्विनतां ततः अण्डमाच्छाद्यतिष्ठन्ति साधावत् बालकान् प्रति पलायनमानां तान् दृष्ट्वा विनदा पृष्टदो ययौ निघ्नदीपक्षवादेन स्वापदानि द्रुमानपि गुणेशस्तत्समालोक्यलीनो वृक्षस्य कोटरे ददर्शाण्ठं श्वेततरं मण्डलं शशिनो यथा दधारहस्ते सहसा गुणेशो बलवत्तरम् अस्फुटत्तत्र ददृश्ये पदत्रीनीलकण्ठवान् दीर्घपक्षो विशालाक्षो वमञ्ज्वालाकणान्मुखाद व्याधून यदुभौ पक्षौ कम्पयञ्जगदीतलं समुद्रास्तस्य शब्ददः चचालमण्डलं भानोरार्धकास्ते पलायिताः पृष्ठतो नु ययौ सोधपक्षकादेन ताडयन् तं दृष्ट्वा कदनं तेषां योद्धु गुणेश्वरः जग्राकपक्षे तं क्रूरं तदो युद्धमवर्तत पक्षखादैश्चञ्चुपुडैर्जखानपक्षिपुङ्गवः आरक्तनयनसोऽपि तं जघ्ने मुष्टिखादः अधिदार्ढ्यं तस्य दृष्ट्वा च दुर्भिरप्यधायुधैः गुणेशस्तं जखानाशु तनिबे दुर्धरातरे उड्डीयसपपालाशु बालानादाय सत्वरः गुणेशस्तान् समुन्मुच्य समारूढोन् वशे तमण्डजं कृत्वा चारुरोः गुणेश्वरः तदस्तमायुर्बाला विनतापि समाययौ तुष्टावपरमात्मानं गुणेशं तं धिया त्वं सृष्टिकर्ता रजसा विष्णुस्त्वमसि तमसा संहारञ्चङ्गरोऽपि च न देवानर्शयस्तत्त्वं विदुस्ते सगुणस्यः निर्गुणस्य तु चराचर वेदचराचरगुरोरपि एवं स्तुत्वा वदित् सादं प्रणदा भक्तितत्परा कश्यपस्य मुनिर्भार्या विनतां विद्धि तस्य पुत्रसि खण्डी च सेवकस्ते भविष्यति मुनिना पूर्वमुक्तं मे योऽण्ठ मे दद्भिनत्ति च सोऽस्य स्वामी न पादपद्मं चिरं तव जडायुष्य न सम्पादि निदा कदृसुदयस्त्रयः तान्मोचय जगन्नाथशीक्रं दर्शय मे सुदान् गणेश उवाच मा चिन्तां कुरु माधस्त्वं दर्शयिष्ये सुदांस्तव क उवाच यवमुक्त्वा दुविनदां बहुहर्षसमन्विधः शिखिनं च ततः प्राहवरं मयूर उवाच यदि मे त्वं प्रसन्नोऽसि यदि देयो वरो मम तदा मन्नाम पूर्वं ते नामाख्यादं भवेद्भुवि ये तन्मे देहि सर्वे श तव भक्ति दृढां तथा देव उवाच साधु, साधु त्वया प्रोक्तं निर्लोभे नादरात्मना त्वन्नाम पूर्वमन्नाम मयूरेश्वर इत्यथा विख्यातं त्रिषु भक्तिर्मयि दृढा भवेद क उवाच एवमाकर्ण्य सा सर्वं विनता स्वाश्रमं ययौ शिखण्डिनम् समारूढो मयूरेशो निजं गृहम् मयूरेश मयूरेश मयूरेशेति चाशकृत गृणद्भिर्मुनिबालैस्तैरन्वितः शोभयन्दिशः मादरं प्रणिपत्याह वृत्तान्तं सर्वमञ्जसा वर्णयन्तो मयूरेशं मुनिपुत्रा गृहान् ययुः युद्धं मयूरेश नाम प्रापजासौ गुणेश्वरः इति श्रीगणेशपुराणे क्रीडाखण्डे शिखण्डिवरप्रदानं नामाष्टनवतितमोऽध्यायः ओ